नमो भगवते वासुदेवाय अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तमवासमाहात्मे श्रीनारायण नारदसंवादे अधिमासस्य ऐश्वर्यप्राप्तिवर्णनं नाम श्री श्रीपुरुषोत्तम उवाच समेचीनं कृतं विष्णु यदत्रागतवान् भवान् मलमासं करे कृत्वा लोके कीर्तिमवाप्स्यसि यस्त्वयोरीकृतो जीवः समयैवोरीकृतः अत एनं करिष्यामि सर्वोपरि यथा अहं गुणैः कीर्त्यानुभावेन षड्भगैश्च पराक्रमैः भक्तानां वरदानेन गुणैरन्यैश्च मामकैः अहमेतैर्यथा लोके प्रथितः पुरुषोत्तमः तथाजमपि लोकेषु प्रथितः पुरुषोत्तमः अस्मै समर्पिताः सर्वे ये गुणामयि संस्थिताः पुरुषोत्तमेति यन्नाम प्रथितं लोकवेदयोः तदप्यस्मै मया दत्तं तव तुष्ट्यै जनार्दनम् अहमेवास्य सञ्जातः स्वामी च मधुसूदन एतन्नाम्ना जगत्सर्वं पवित्रं च भविष्यति मत्सादृश्यमुपागम्य मासानामधिपो भवेत् जगत्पूज्यो जगद्वन्द्यो मासोयं तु भविष्यति पूजकानां च सर्वेषां दुःखदारिद्र्यखण्डनम् सर्वे मासा सकामाश्च निष्कामोऽयं मया कृतः मोक्षदः सर्वलोकानां मत्तुल्योऽयं मया कृतः अकामः सर्वकामो वा यूधिमासं प्रपूजयेत् कर्माणि भस्मसात् कृत्वा मामेवैशत्यसंशयं यदर्थं च महाभाग यतिनो ब्रह्मचारिणः तपस्यन्ति महात्मा नो निराहारा दृढव्रता फलपत्रानिलाहाराः कामक्रोधविवर्जिताः जितेन्द्रियाश्च वै सर्वे प्रावृट्काले निराश्रयाः शीता तपसाश्चैव यतन्ते गरुडध्वजं तथापि नैव परमं पदमव्ययम् पुरुषोत्तमस्य भक्तास्तु मासमात्रेण तत्पदम् अनायासेन गच्छन्ति जरामृत्युविवर्जितं सर्वसाधनतः श्रेष्ठः सर्वकामार्थसिद्धिदः तस्मात् संसेव्यतामेष पुरुषोत्तमः सीतानि क्षिप्तबीजानि वर्धन्ते कोटिशो यथा तथा कोटिगुणं पुण्यं कृतं मे पुरुषोत्तमे चातुर्मास्यादिभिर्यज्ञैः स्वर्गं गच्छन्ति केचन तत्रत्यं भोगमासाद्यं पुनर्गच्छन्ति भूतलं विधिवत्सेवते पुरुषोत्तममादरात् कुलं स्वकीयमुद्धृत्य मामे वैशत्यं संशयं मामुपे तोत्र, मामुपे तोत्र संसारं जन्ममृत्युभयाकुलम् आधिव्याधिजराग्रस्तं न पुनर्याति मानवः यद् गत्वा न निवर्तन्ते तद्धाम परमं मम इति छन्दो वचः सत्यम् असत्यं जायते कथम् एतन्मासाधिपश्चाहं मयै वाजं प्रतिष्ठितः पुरुषोत्तमेति मन्नाम तदप्यस्मै समर्पितम् तस्मादेतस्य भक्तानां मम चिन्तादिवानिशं तदभक्तकामनाः सर्वं पूरणीया मयैव कदाचिन्मम भक्तानां अपराधोऽधिगण्यते पुरुषोत्तमभक्तानां नापराधः कदाचन मदाराधनतो विष्णो मदीयाराधनं प्रियं मदभक्तकामनादानी विलम्बेऽहं कदाचन मदीयमासभक्तानां न विलम्बे कदाचन मदीयमासभक्ता ये ते ममातीवल्लभा य एतस्मिन् महामूढा जपदा नादिवर्जिता सत्कर्मस्नानरहितां देवतीर्थद्विजद्विषः जायन्ते दुर्भगा दुष्टाः परभाग्योपजीविनः न कदाचित् सुखं तेषां स्वप्नेऽपि शशशृङ्गवत् तिरस्कुर्वन्ति ये मूढा मलमासं मम प्रियं न ये धर्मं ते सदा निरयालया पुरुषोत्तममासाद्य वर्षे वर्षे तृतीयके नाचरिष्यन्ति धर्मं ये कुम्भे पाके पतन्तीति इहलोके महद्दुःखं पुत्रपौत्रकलत्रजम् प्नुवन्ति महामूढ दुःखदावानलस्थिताः ते कथं सुखमेधन्ते येषामज्ञानतो गतः श्रीमान् पुण्यतमो मासु मदीयः पुरुषोत्तमः या स्त्रियः सुभगापुत्र सुखसौभाग्य हेतवी पुरुषोत्तमे करिष्यन्ति स्नानदानार्चनादिकं तासां सौभाग्यसम्पत्तिसुखपुत्रप्रदोह्यं यासां मासो गतः शून्यो मन्नामा पुरुषोत्तमः न तासामनुकूलोऽहं न सुखं स्वामिजं भवेत् भ्रातृपुत्रधनानां च सुखं स्वप्नेऽपि दुर्लभम् तस्मात् सर्वात्मना सर्वैः स्नानपूजाजपादिकं विशेषेण प्रकर्तव्यं दानं शक्त्यनुसारतः येनाहमर्चितो भक्त्या मासेऽस्मिन् पुरुषोत्तमे धनपुत्रसुखं भुक्त्वा पश्चाद्गोलोकवासभा ममाज्ञयाः जनाः सर्वे पूजयिष्यन्ति मामकम् सर्वेषामपि मासानाम् उत्तमोजं मया कृतः अतस्त्वमधिमासस्य चिन्तां त्यक्त्वा रमापते गच्छ वैकुण्ठमतुलं गृहीत्वा पुरुषोत्तमम् इति बृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे अधिमासस्य ऐश्वर्यप्राप्तिर्नाम सप्तमोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु